अथ चतुस्त्रिंशः सर्गः अथ ताम् जातसन्तापाम् तेन वाक्येन मोहिताम् सरमाह्लादयामास महीम् दग्धामि वाम्भसा ततस्तस्याहितम् सख्याश्चिकीर्षन्ती सखी वचः उवाच काले कालज्ञास्मितपूर्वाभिभाषिणी उत्सहेयमहम् गत्वा त्वद्वाक्यमसिते निवेद्य कुशलम् रामे प्रतिच्छन्ना निवर्तितुम् न हि मे क्रममाणाय विहायसि समर्थो गतिमन्वेतुम् पवनो गरुडोऽपि वा एवम् ब्रुवाणाम् ताम् सीता सरमामिदमब्रवीत् मधुरम् श्लक्ष्मया वाचा पूर्वशोकाभिपन्नया समर्था गगनम् गन्तुमपि च रसातलम् अवगछाद कर्तव्य कर्तव्यं ते मदंतरे मत प्रियदि कर्तव्य बुद्धिस्थिरा तव ज्ञात तम गिकती रावण स ही मायाबल क्रूरो रावण शत्रुरावण मोहयती दुष्टात्मा पीतमात्रु तर्जा मत सकत् राक्षसीभिः भे सुगौराभिर्यो माम् रक्षति नित्यशः उद्विग्ना शङ्किता चास्मिन् अस्वस्थम् च मनो मम तद्भयाच्चाहमुद्विग्ना अशोकवनिकाम् गता यदि नाम कथा तस्य निश्चितम् वापि यद्भवेत् निवेदयेथा सर्वम् तद्वरो मे स्यादनुग्रहः साप्येवम् सरमा मृदुभाषिणी उवाच वदनम् तस्य स्पृशन्ती बाष्पविक्लवम् एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकी गृह्यशत्रोरभिप्रायमुपावर्तामि मैथिली एवमुक्त्वा ततो गत्वा समीपम् तस्य रक्षसः शुश्रावकथितम् तस्य रावणस्य स्वमन्त्रिणः सा श्रुत्वा तस्य निश्चयज्ञादुरात्मनः पुनरेवागमत्क्षिप्रमशोकवनिकां शुभाम् सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम् प्रतीक्षमाणाम् स्वामेव भ्रष्टपद्मामिव श्रियम् ताम् तु सीता पुनः प्राप्ताम् सरमाम् प्रियभाषिणीम् परिष्वज्य च सुस्निग्धम् ददौ च स्वयमासनम् इहासीना सुखम् सर्वमाख्याहिमवतत्वतः क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः एवमुक्ता तु सरमासीतया वेपमानया कथितम् सर्वमाचष्ट रावणस्य स मन्त्रिणः जनन्या राक्षसेन्द्रो वै त्वम् मोक्षार्थम् बृहद्वचः अतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली निदर्शनम् ते पर्याप्तम् जनस्थाने यदद्भुतम् लङ्घनम् समुद्रस्य दर्शनम् च हनूमतः मधम् च रक्षसाम् युद्धे कह कुर्यान मानुषो युधि एवम् स मन्त्रिवृद्धैश्च मात्रा च बहुबोधितः न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा नोत्सहत्यमृतो मोक्तुम् युद्धे त्वामिति मैथिली सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता भयान्न शक्तस्त्वाम् मोक्तुमनिरस्तः संयुगे राक्षसानाम् च सर्वेषामात्मनश्च वधे न हि निहत्य रावणम् सङ्ख्ये सर्वथा रामस्त्वा मयोध्यावसिते एतस्मिन्नन्तरे शब्दो भेरी शङ्खसमाकुलः श्रुतो वै सर्वसैन्यानाम् कम्पयन्धरणीतलम् श्रुत्वा तु तम् वानरसैन्यनादम् लङ्कागता राक्षस राजभृत्या हतौ जसो दैन्यपरीतचेष्टा श्रेयो न पश्यन्ति दोषात् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे चतुस्त्रिंशः